क्षिप्तम् क्षिप्तम् रणे चैतत्वया माधवशत्रुषु हत्वा प्रतिहतं सङ्ख्ये पाणिमेष्यति पुनः वरुणश्च ददौ तस्मै गदामशनिःस्वनां दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं प्रभुः ततः पावकमब्रूतां प्रहृष्टावर्जुनाच्युतौ कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि कल्यौ स्वो भगवन् योद्धुमपि सुरासुरैहि। किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सत अर्जुन उवाच चक्रपाणीषिशो विचर युधिवी चक्रेण भस्म सात्स विसृष्टे नुवीय त्रिषुलोकेशु तस्कुनादन गाडीव धनुरादा तथा क्षये महेषु धी अहमप्युत्सहे लोकान् विजेतुं युधि पावक सर्वतः परिवार्यैवं दावमेतम् महाप्रभो कामं सम्प्रज्वलाद्यैव कल्यौ स्वसाह्यकर्मणि वैशम्पायन उवाच एवमुक्तः स भगवान् दाशार्हेणार्जुनेन च तैजसंरूपमास्थाय दावम् दग्धुम् प्रचक्रमे सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तथा ददाहखाण्डवम् दावम् युगान्तमिव दर्शयन् प्रतिगृह्य समाविश्य भरतर्षभ मेघस्तनितनिर्घोषः सर्वभूतान्यकम्पयत्